अथ पञ्चचत्वारिंशः सर्गः आर्तस्वरं तु तम् भर्तुर्विज्ञायसदृशम् वने उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् न जीवितं स्थाने हृदयं वावतिष्ठते क्रोशतः परमार्तस्य श्रुतः शब्दो मया वृषम् आक्रन्दमानम् तु वने भ्रातरम् द्रातुमर्हसि क्षिप्रमभिधाव त्वम् भ्रातरम् शरणैषिणम् रक्षसाम् वशमापन्नम् सिंहानामिव गोवृषम् न जगाम तथोक्तस्तु भ्रातुराज्ञायशासनम् तमुवाच ततस्तत्रक्षभिता जनकात्मजा सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् यस्त्वमस्यामवस्थायाम् भ्रातरम् नाभिपद्यसे इच्छसि त्वम् रामं रामम् लक्ष्मणमत्कृते लोभात्मत्कृते नूनम् नानुगच्छसि राघवम् व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि तेन तिष्ठसि विश्रब्धम् तमपश्यन् महाद्युतिम् किम् हि संशयमापन्ने तस्मिन्निहमया भवेत् कर्तव्यमिह तिष्ठन्त यत्प्रधानस्त्वमागतः एवम् ब्रुवाणाम् वैदेहीम् बाष्पशोकसमन्विताम् अब्रवीर्लक्ष्मणस्त्रस्ताम् सीताम् मृगवधूमिव पण्णगासुरगन्धर्वदेव दानवराक्षसैः अशक्यस्तव वैदेहि भर्ता जेतुम् न संशयः गन्धर्वेषु पतत्रिषु राक्षसेषु अपिशाचेषु किन्नरेषु मृगेषु च दानवेषु च घोरेषु न स विद्येत शोभने यो रामम् प्रति युध्येत समरे वासवोपमम् अवध्यः समरे रामो नैवम् त्वम् वक्तुमर्हसि न त्वामस्मिन् वनेहातुमुत्सहे राघवम् विना अनिवार्यं बलन्तस्य बलैर्बलवतामपि त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि हृदयम् निर्वृतम् तेऽस्तु सन्तापस्त्यज्यताम् तव आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् न स तस्य स्वरो व्यक्तम् न कश्चिदपि दैवतः गन्धर्वनगरप्रख्यामाया तस्य च राक्षसः व्यासभूता वैदेहिन्यस्ता मयि महात्मना रामेण त्वम् वरारोहेण कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः करस्य निधने देवि जनस्थानवधम् प्रति राक्षसा विविधा वाचो महावने हिंसा विहारा वैदेहि लक्ष्मणेनैव मुक्ता तु क्रुद्धा संरक्तलोचना अब्रवीत्परुषम् वाक्यम् लक्ष्मणम् सत्यवादिनं अनार्याकरुणारम्भ नृशम् सकुलपांसना अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् रामस्य व्यसनम् दृष्ट्वा तेनैतानि प्रभाषसे नैव चित्रम् सपत्नेषु पापम् लक्ष्मण यद्भवेत् त्वद्विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु सुदुष्टस्त्वम् वने राममेकमेकोऽनुगच्छसि मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा तन्न सिध्यति सौमित्रे तवापि भरतस्य वा कथमिन्दीव रश्यामम् रामम् पद्मनिभेक्षणम् उपसंश्रित्य भर्तारम् कामयेयम् पृथग्जनम् समक्षन्तव सौमित्रे इत्युक्तः परुषम् वाक्यम् सीतयारो महर्षणम् अब्रवीर्लक्ष्मणः सीताम् प्राञ्जलिः सजितेन्द्रियः उत्तरम् नोत्सहे दैवतम् भवति मम वाक्यमप्रतिरूपम् तु न चित्रम् नारीणामेषु लोकेषु दृश्यते विमुक्तधर्माश्च न स हे हीदृशम् वाक्यम् वैदेहि ही जनकात्मजे श्रोत्रयोर्भयोर्मध्ये तप्त नारा सन्निभम् उपशृण्वन्तु सर्वे साक्षिणो हि वनेचरा न्यायवादी यथा वाक्यमुक्तोऽहम् परुषम् त्वया धिक्त्वा मद्य विनश्यन्तीम् यन्मामेवम् विशङ्कसे स्त्रीत्वा दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् गच्छामि यत्र स्वस्तितेस्तु स्वस्ति तेऽस्तु वरानने रक्षन्तु त्वाम् विशालाक्षिसमग्रावनदेवताः निमित्तानि हि घोराणि यानि प्रादुर्भवन् विमे अपि पश्येयम् पुनरागतः लक्ष्मणेनैव मुक्ता तु जनकात्मजा प्रत्युवाच ततो वाक्यम् गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मणा आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः पिबामि वा विशम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् न त्वहम् राघवादन्यम् कदापि पुरुषम् स्पृशे इति लक्ष्मणमाश्रित्य सीता शोकसमन्विता पाणिभ्याम् रुदति दुःखादुतरम् रूपाम् विमना रुदन्तीम् सौमित्रिरालोक्य विशालनेत्रा आश्वासयामासन चैव भ्रातरं भ्रातरम् किञ्चिदुवाच सीता ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य अवेक्षमाणो बहुशः स मैथिलीम् र्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चचत्वारिंशत् सर्गः